अथ चतुर्थः सर्गः गतेष्वथ नृपो भूयः सह मन्त्रिभिः मन्त्रयित्वा ततश्चक्रे निश्च यज्ञः निश्चयम् श्व पुष्यो भविता श्वोभिषेच्यस्तु मे सुतः रामो राजीव पत्राक्षो युवराज इति प्रभुः अथान्दर्ग्रहमाविश्य राजा दशरथस्तदा सूतमामन्त्रयामास रामम् पुनरिहानय प्रतिगृह्यतु तद्वाक्यम् सूतः पुनरुपाययौ रामस्य भवनम् शीघ्रम् राममानयितुम् पुनः द्वाःस्थैरावेदितम् तस्य रामायागमनम् पुनः श्रुत्वैव चापि रामस्तम् प्राप्तम् शङ्कान्वितोऽभवत् प्रवेश्य चैनम् त्वरितो रामो वचनमब्रवीत् यदा गमनकृत्यन्ते भूयस्तद्ब्रूह्यशेषतः तमुवाच ततः सूतो राजा त्वाम् द्रष्टुमिच्छति श्रुत्वा प्रमाणम् तत्र त्वम् इति सूतवचः श्रुत्वा रामोऽपि प्रययौ राजभवनम् पुनर्द्रष्टुम् नरेश्वरम् तम् श्रुत्वा समनुप्राप्तम् रामम् दशरथो प्रवेशयामासगृहम् विवक्षः प्रियमुत्तमम् प्रविशन्नेव च श्रीमान् राघवो भवनं पितुः ददर्श दूरात् प्रणिपत्य कृताञ्जलिः प्रणमन्तम् तमुत्थाप्य सम्परिष्वज्यभूमिपः प्रदिश्य चासनम् चास्मै रामम् च पुनरब्रवीत् रामवृद्धोऽस्मि दीर्घायुर्भुक्ता भोगा अन्नवद्भ्यः क्रतुशतैर्यथेष्टम् भूरि दक्षिणैः जातमिष्टमपत्यम्ये त्वमध्यानुपमम् भुवि दत्तमिष्टमधीतम् च मया पुरुषसत्तमा अनुभूतानि चेष्टानि मया वीरसुखान्यपि देवर्षिपितृविप्राणामनृणोऽस्मि तथात्मनः न किञ्चिन्मम कर्तव्यम् तवान्यत्राभिषेचनात् अतो यत्त्वामहम् ब्रूयाम् तन्मे त्वम् कर्तुमर्हसि अद्य प्रकृतयः सर्वा स्त्वामिच्छन्ति न राधिपम् अत स्वाम्यवराजानमभिषेक्ष्यामि पुत्रका अपि चाद्याशुभान् रामस्वप्नान् पश्यामि राघवा स निर्घातादिबोल्काश्च हि महास्वनाः अवष्टब्धम् मे राम दारुणग्रहैः आवेदयन्ति दैवज्ञाः सूर्याङ्गारकराहुभिः प्रायेण च निमित्तानामीदृशानाम् समुद्भवे राजा हि मृत्युमाप्नोति घोराम् चापदमृच्छति तद्यावदेव मे चेतो न विमुष्यति राघव तावदेवाभिषिञ्चस्व चला हि प्राणिनाम् मतिः अद्य चन्द्रोऽभ्युपगमत् पुष्यात् पूर्वम् पुनर्वसुम् श्वः पुष्ययोगम् नियतम् वक्ष्यन्ते दैव चिन्तकाः तत्र पुष्येऽपि शिञ्चस्व मनस्त्वरयतीव माम् श्वस्त्वाहमभिषेक्ष्यामि यौवराज्ये परन्तप तस्मात्त्वयाद्यप्रभृतिनिषेयम् नियतात्मना सह वध्वोपवस्तव्या दर्भप्रस्तरशायुना सुहृदश्चाप्रमत्तास्त्वाम् रक्षन्त्वद्य समन्ततः भवन्ति बहुविघ्नानि कार्याण्येवंविधानि हि विप्रोषितश्च भरतो यावदेव पुरादितः तावदेवाभिषेकस्ते प्राप्तकालो मतो मम कामम् खलु सताम् वृत्ते भ्राता भरतस्थितः ज्येष्ठानुवर्ती धर्मात्मा सानुक्रोशो जितेन्द्रियः किम् नु मे मतम् सताम् च धर्म नित्यानाम् कृतशोभिच राघवा इत्युक्तः सोऽभ्यनुज्ञातः श्वोभाविन्यभिषेचने व्रजेत रामः पितरमभिवाद्याभ्ययाद्गृहम् प्रविश्य चात्मनो वेश्मराज्ञादिष्टेऽभिषेचने तत्क्षणादेव निष्क्रम्य मातुरन्तः पुरम् ययौ तत्र ताम् प्रवणामेव मातरम् क्षौमवासिनीम् वाग्यताम् देवतागारे ददर्शा याचतीम् श्रियम् प्रागेव चागता तत्र सुमित्रा लक्ष्मणस्तथा सीता चानयिता श्रुत्वा प्रियम् रामाभिषेचनम् तस्मिन्कालेऽपि कौसल्या तस्था वा मीलिते क्षणा सुमित्रयान्वास्यमाना सीतया लक्ष्मणेन च श्रुत्वा पुष्ये च पुत्रस्य यौवराज्येऽभिषेचनम् यामेन पुरुषम् ध्यायमाना जनार्दनम् तथा स नियमामेव सोऽभिगम्याभिवाद्य च उवाच वचनम् रामो हर्षयम्स्तामिदम्बरम् अम्बपित्राणि युक्तोऽस्मि प्रजापालनकर्मणि भविताश्वोऽभिषेको मे यथा मेषासनम् पितुः सीतयाप्यपवस्तव्या रजनीयम् मया सह मुध्यायिमा मुक्तवां पिता यानी योग्या शोभाषेचनेंगलान्य वैदेहतुवा तो कौसल्यार कालाका हर्ष बाष्पाकुम वाक्यद रामत वत्सरामचि जीव हतास्ते परपंथिन ज्ञातीन्ने त्वम् श्रिया नन्दया कल्याणे बत नक्षत्रे मया जातोऽसि पुत्रका येन त्वया दशरथो गुणैराराधितः पिता अमोघम् बत पुरुषे पुष्करे क्षणे ज्ञेयमिक्ष्वाकुराजश्रीः पुत्रत्वाम् संश्रयिष्यति इत्येवमुक्तो प्राञ्जलिम् प्रह्वमासीनमभिवीक्ष्य स्मयन्निव लक्ष्मणे माम् मया सार्धम् प्रसाधित्वम् वसुन्धरा द्वितीयम् मेऽन्तरात्मानम् त्वामियम् श्रीरुपस्थिता सौमित्रे भुङ्क्ष्व भोगाम् स्वमिष्टान् च जीवितम् चापि राज्यम् च इत्युक्त्वा लक्ष्मणम् रामो मातरावभिवाद्य अभ्यनुाप्य सीताय स्वच्वनमशे श्रीमद्राणे वाक आदि कायोध्या चतु सर्ग